हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे दशमः स्वर्गः रावणः भवनम् कृत्वा अपरशकून भयम् प्रदर्श्य सीतानिवर्तनाय रावणम् प्रति विभीषणस्य प्रार्थना ताम् अनङ्गीकृत्य रावणेन तस्य ततो विसर्जनम् ततः प्रत्युचसि प्राप्ते प्राप्तधर्मार्थ निश्चय राक्षसाधिपतेर्वेष्म भीमकर्मा विभीषणः शैलाग्रचय संकाशम् शैलश्रृङ्गम् विभोन्नतं सुविभक्त महाकक्षम् महाजन परिग्रहम् मते मद्भिः महात्मात्रै अनुरक्तै अधिष्ठितम् राक्षसै अत्र पर्याप्तै सर्वतः परिरक्षितम् तङ्ग निश्वासै व्याकुलीकृतमारुतम् शङ्घोष महाघोषम् तुर्यवादनादितम् प्रमदा जन संवाधम् प्रजल्पित महापथम् तप्त काञ्चन निर्यूहम् भूषणोत्तम भूषितम् गन्धर्वाणाम् विवासम् आलयम् मरुतुहे कृत्नसञ्चयसंवादम् भवनम् भोगिनाम् विवये तम् माभ्रम् विवाजित्य तेजो विस्तृतरश्मिवान् अग्रजस्यालयम् वीर प्रविवेश महाद्युतिः पुण्यात् पुण्याः घोषा च वेदविद्भि उदाहृतान् शुश्रावय सु महातेजा पूजितान् दधि पात्रे च सर्पिर्भिसु मनोक्षतैः मन्त्रवेद विदो विप्रान् प्रदर्श स स्वतेजस आसनस्थम् महाबाहु वन्दे धनदानुजम् स्वराजदृष्टि सम्पन्नम् आसनम् जगामा समुदाचारम् प्रयुज्याचारकोविदः स्वरावणम् आत्मानं विजने मन्त्रि सन्निधौ उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् प्रसाद्य भ्रातरं ज्येष्ठं तान्त्वेनोपस्थितक्रमः ते च कालार्थ संवादि दृष्टोकः परावरः यदा प्रभृति वैदेह सर तदा प्रभृति दृश्य से अशुभा स धूर्मा धूम सधूम कलुशोदय मंत्रिप्य सभीर्धते अग्निस्टेशलासु तथा ब्रह्मस्थलीषु सरिसृपाणि दृश्यन्ते सर्वेषु च पिपीलिकाः गवां पयांसि स्कन्नानि विमदः वरकुञ्जरः दीनमश्वा प्रयच्छन्ते नवग्रासाभिनन्दिनः ख्रोष्टाश्वतराजन् भिन्नरोमा स्रवन्ति च न स्वभावेऽवतिष्ठन्ते पि चिन्तिताः वायता सङ्घर्ष क्रूरा व्याहरन्ति समन्ततः समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घर्षः गृध्रा च परिलीयन्ते पुरीमुपरि पिण्डिता उपपन्ना च सन्देते व्याहरन्त्य शिवं शिवा क्रव्याधानां दृढाणां च पुरीद्वारेषु सङ्गचये श्रूयन्ते विपुलाघोष स विस्फूर्जितनिश्वरः तदेवम् प्रस्तुते कार्ये प्रायश्चित्तम् इदम् क्षमम् रोचये वीरवैदेहि राघवाय प्रदीयताम् इदम् च यदि वा मोहात् लोभाद्वा व्यावृतम् मया तत्रापि च महाराज न दोषम् कर्तुमर्हसि अयम् हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते रक्षसाम् राक्षसीनाञ्च पुरस्यान्तः पुरस्य च प्रापणे चास्य मन्त्रस्य निवृत्ता सर्वमन्त्रिणः अवश्यं च मया वाचम् यद्दृष्टम् अथवा श्रुतम् तद्भवान् कर्तुमर्हति इति स्वमन्त्रिणां मध्ये ब्राता भ्रातरमुचिवान् रावणम् रक्षसां श्रेष्ठम् पथ्यम् वेतद्विभीषणः हितम् मृदहेतुसंहितम् विचितकालायतितं प्रतिक्षमं निशम्य तद्वाक्यमुपस्थि तद्वरः प्रसङ्गवा नो तरमेतम् अब्रवीत् भयं न पश्यामि कुतश्चिदप्यहम् राघव प्राप्सति जातु मैथिलीम् सुरैः सह इन्द्रैरपि सङ्गरे कथम् ममाग्रज स्थासति लक्ष्मणाग्रजे इत्येवम् मुक्त्वा सुनो बह बले संयतचण्ड विक्रमे स चाननो भ्रातरमाप्तवादिनम् इत्यार्थे श्रीमद् रामायणे वाल्मीकि आधिकाव्ये युद्धकाण्डे दशमः सर्गः